बोलो नाता उमापते शम्भो शङ्कर पशुपते बोलो नाता उमापते शम्भो शङ्कर पशुपते नन्दिवाहना नागूषण चन्द्रशेखरा जडादरा चन्द्रशेखरा जडादरा गङ्गाधारा गौरी मनोहर गिरिजारमणा सदा शिवा गङ्गाधारा गौरी मनोहर गिरिजारमणा बोलो नाता उमापते शम्भो शङ्गर पशुपते सुलादारा ज्योतिप्रकाशा विपुदि सुन्दर परमेशा सुलादारा ज्योतिप्रकाशा विपुदि सुन्दर परमेशा बंबं बं बं तमरुगणादा पार्वती रमणा सदा शिवा बम्बं बं ब मरुगणादा पार्वती रमणा सदा शिवा बोलो नाता उमापते शम्भो शङ्कर पशुपते बोलो नाता उमापदे शम्भो शङ्कर पशुपते